अथ त्रिंशः सर्गः अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ देशे काले च वाक्यज्ञावब्रूताम् कौशिकम् वचः भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम् एवम् ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया सर्वेते मुनयः प्रीताः प्रशशं स्वनृपात्मजौ अद्य प्रभृति षड्रात्रम् रक्षताम् राघवौ युवा दीक्षाम् गतो ह्येषमुनिर्मौनित्वम् च गमिष्यति तौ तु श्रुत्वा राजपुत्रौ यशस्विनौ अनिद्रम् षडहोरात्रम् तपो वनमरक्षता उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ रक्षतुर्मुनिवरम् विश्वामित्रमरिन्दमौ अथ गते तस्मिन् षष्ठे हनितदागते सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः रामस्यैवम् ब्रुबाणस्य त्वरितस्य युगुत्सया प्रज्वालततो वेदि सोपाध्यायपुरोहिता सदर्भचमसससृक्कास विश्वामित्रेण सहिता वेदिर्जज्वालसर्त्विजा मन्त्रवच्च यथा न्यायम् यज्ञोऽसौ सम्प्रवर्तते आकाशे च महान् शब्दः प्रादुरासीद्भयानकः आवार्य गगनम् मेघो यथा प्रावृषि दृश्यते तथा मायाम् विकुर्वाणो राक्षसावभ्यधावता मारीच्च सुबाहुश्च तयोरनुचरास्तथा आगम्य भीमसङ्काशा रुधिरोघा न तांते सृजन् तान् तेन रुधिरोघेण वेदीम् रामस्तान पश्यत्ततो दिवि तावापतंतो सहसा दृष्ट्वा राजीवलोचनः लक्ष्मणम् त्वभि सम्प्रेक्ष्य रामो वचनमब्रवीत् पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् मानवास्त्रसमाधूताननिलेन यथा घनान् करिष्यामि न सन्देहो नोत्सहेऽहन्तुमीदृशान् इत्युक्त्वा वचनम् रामश्चापे सन्धाय वेगवान् मानवं परमोदारमस्त्रं परमभास्वरं चिक्षेप परमक्रुद्धो मारीचोरसि राघवः परमास्त्रेण मानवेन समाहतः सम्पूर्णम् योजनशतम् क्षिप्तः सागरसम्प्लवे विचेतनम् विघोर्नन्तम् शीतेषु बलपीडितम् निरस्तम् दृश्यमारीचम् रामो लक्ष्मणमब्रवीत् पश्य लक्ष्मणशीतेषु मानवम् अनुसंहितम् मोहयत्वा न यत्येनम् न च प्राणैर्वियुज्यते दुष्टचारिणः राक्षसान् पापकर्मस्थान् यज्ञघ्रान् रुधिराशनान इत्युक्त्वा लक्ष्मणम् चाशु लाघवम् दर्शयन्निव विगृह्य सुमहच्चास्त्रमाग्नेयम् रघुरन्दनः सुबाहूरसि चिक्षेप समिद्धः प्राप तद्भुवि शेषान् वायव्यमादाय निजघानमहायशाः राघवः परमोदारो मुनीनाम् मुदमावहन् सः त्वा राक्षसान् सर्वान्यज्ञघ्नान् रघुनम् दनः ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् कृतार्थोऽस्मि महाबाहो कृतम् गुरुवचस्त्वया सिद्धाश्रममिदम् सत्यम् कृतम् वीरमहायशः स हि रामम् प्रशस्यैवम् ताभ्याम् सन्ध्यामुपागमत् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः